सर्वान् वायशोऽग्नो कामान् प्रवेशयति यो वाधाय प्रथमुपैते सेदनष्ट्वा प्रयायात् अकामप्रेतादेन कामानानुप्रयायोः प्रवेजावेर्यस्यात् सजुयात् अभ्यन्ताङ्गिरस्तमा विश्वासुक्षितयः पृथक् अग्नेकामाय कामानेवास्मिन् दधाते कामप्रेतायनम् कामानुप्रयान्ते तेजस्वेवद्यावान्भवते सङ्गदर्वा एषा यज्ञस्य योज्ञेनवासायम् व्रतमुपैदे स एव उद्वायते विच्छिद्यरेवास्य सा तमप्राञ्चमुद्धृत्य मनसोपतिष्ठेत मनो वै प्रजापतिः प्राजापत्यायज्ञः संतनोते, मनसैव यज्ञकम् सन्तनोति भोरित्याह भूतो वे प्रजापतिः भूतिमेवोपैदे इवा एकेन्द्रियेण वीर्येण यस्याहिताग्नेरग्निरपक्षायते यावत्संजा प्रविध्ये यदि तावदपक्षायेत्सम्भरेत् इदम् तदेकम् परपुतरेकम् तदीयेन ज्योतिजासम्विशस्व संवेषणस्तनुपैतादिवानाम् रमेत्रयम्मणैव तदप्रायश्चित्तिः यदि परस्तनामकक्षायेन अनुप्रयायावश्येन स्वो एव तदप्रायश्चित्तिः ओणधेर्वा एनस्य पशोन्मयः प्रविशति यस्य हविषे वत्सा अपाकृतारयन्ति तानि यातयाम्ना हविषायजेत यज्ञद्यान् यज्ञपरिरन्तर्यान् वायव्यायवाकोन्यर्मपेन् आयुर्वयपयसः प्रदापयिता हरे वा स्मैपयः प्रदापयते पयोवा वोढधयः पयत्वयः पयसैवास्मैपयोवरुन्धे अथोत्रस्मे अविषयस्तानपाकुर्यान् वैवरतः प्रायश्चित्तिः अन्यतरानुवारेषु देवान्भागधेयेन अभ्यर्थयति येषणस्य सायम् गृहमागच्छन्ते यस्य सायम् शब्दम् हविरार्तिमार्चते इन्द्राय व्रीहेण्यृत्यापोषयत् वयोमापोषयः अयेवाभ्यहे त्वापोधे यत्रातः स्यात् तच्छलम् कुर्यात् अथेतर इन्द्रपुरोणाशस्यात् न्द्रियेणेवास्मे समेते दधाति वयो वाोषयः पयः पयः अयथैवास्मैपयोवृन्धे अथोत्तरस्मे अविषयवत्सा न्यात् सैव जदप्रायश्चित्तेः उभयानुवारेण देवान्पाकथे न्यर्थेते येजमानस्य धायम् च पमाकश्च गृहमागच्छन्ति यस्य अभयम् हविरार्तिमार्चते अयेन्द्रम् पञ्चसरावमोदनेन अग्निम् देवतानाम् प्रसमञ्जेन् दे। अग्निमुखा एव देवताः प्रीणादि अग्निम् वा अन्वन्या देवताः इन्द्रमन्वन्याः ता एवो भैले प्रीणादि पयो वावोषयः पयप्पयः पयशैवाग्नेपया वरुन्धे अथोक्तरस्मे अभिषे वत्सा न वा अर्थो वा एतस्य यज्ञस्य मीयते यस्य वर्णे अनुपत्यनालम्भुका भवति तामरुध्य विजेत सर्वेणैव यज्ञेन यजते तामिष्ट्वावह्येत अमोऽहमस्मि सा आत्माम् सा माहाम् तावेतम्भवा सारेतो दधामहे पुंसे पुत्रायगेत्तवै प्रायशोषाय सुप्रजास्ताय धे ज्यायते अर्थयैवनावह्वयत् सैव तदप्रायश्चक्तेः यद्मिष्टन्नेन जुयात् अप्रजा मधुर्यजमानः स्यात् वितनायतनेन अनायतनः स्यात् राजावत्ययत्यावन्मेकोपायावनयेत् राजावत्यामेवमेकः यज्ञप्रजापतिः प्रज्ञापदावेव यज्ञम् प्रतिष्ठापयते भोरित्याह भोगावे प्रजापतिः भोजमेवपयते तत्कृत्वा अन्यान् दुग्धापदलोहादव्यम् हैतदप्रायश्चित्तिः है, यत्कीटापन्नेन लिभूयात् अप्रजाप्रसुर्विजमानः स्यात् वितनायतने निनये मध्यमेन पद्मेण द्यावापिषभव्यशक्तान्तः परिशर्णयेत् द्यावापृथव्यो रवेणप्रतिष्ठापयते तत्कृत्वा अन्याम् दग्धानरोतव्यम् एव तदप्रायशक्तिः यदवृष्टेण तुभुयात् अवरोपस्यार्थम् जायेत यासो वा स्यादृशो वा निर्प्रत्यजात् यज्ञम् हरिभूयात् मित्रोजनाहम् कल्पयति पजानन् मित्रोदासारपुशवे मद्याम् मित्रकृष्टेण न बिडाभिनष्ट सत्यायहव्यम् कृतवज्ञु भवते मित्रेणैवेन कल्पयति तत्कृत्वा अन्याम् दुग्धा मनोहोद्रव्यम् हैव तदप्रायश्चित् यत्पूर्वस्यामाहुत्यागम् है हुतायामुत्तराहुतिस्कन्दे भिर्यजमानोऽव्यध्येद चदुत्तरयाभिहयात् चतुष्टाभ्यत्पशुभिर्यजमानोऽव्यध्येद यत्रमेच्छमनस्पदे देवानाम् युक्त्या नामानि तत्र हव्यानि कामये दिवानस्पत्ययच्चारमिषमाधायमेव मार्त्युभूयात् अनस्पतिरेवैकस्याञ्चानाह ताञ्जाहुदेविदाधार तत्कृत्वा अन्याम् दुग्गा पुनरोहातव्यम् एव तदप्रायश्च प्रागङ्गास्कन्दे अभ्रयवे यजमाना यजाग्रः स्यात् यद्दक्षिणा ब्रह्मणे यजमाना यजाग्रस्यात् यत्प्रत्यग होत्रे जपत्ते यजमाना यजाग्रः स्यात् यदुदङ्गे अग्नेशे च रुद्रावास्य भजोन् भ्रादुकस्यान् यन्नाभियाज अशान्तप्रक्रियेत सुरस्य बुद्धेनापि निदध्याय मातमोमायज्ञस्तमन्मायमानस्तमले नमस्ते अस्त्वायते नमो रुद्रपरायते नमो यत्र विशेषसे नमम् माहिकंसे नमम् माहिकुम्से हृदयेन स्कन्दे तम् प्रहरेल स्वापृष्ठा कृतवान् स्वप्रतेकः माजहायते ब्रह्म एव वेर्येण लभ्यते यस्याहिताग्निजायते यत्र अन्यम् पश्येत् तदा सत्यहोतव्यम् अज्ञावेवास्याज्ञहोत्रगम् हृतम् भवने यद्यन्न इन्द्रेन् अजायागम् होतव्यम् आग्ने वा एषा यदजा अग्नैवास्याज्ञहोत्रगम् हृतम् भवने अजस्तजनाश्नीयान् यदस्याश्चीयान् यामेवाग्नावाहुज्युभुयान् तामद्यान् तस्मादस्थनाश्यम् यद्यजान्न विन्देत् ब्राह्मणस्य लक्षिणे हस्ते होतव्यम् एतवाग्निर्वे स्वानरः निर्ग्राम्भः अग्नेव स्याज्ञहोत्रगम् पुरम् भवति ब्राह्मणम् च सत्येनावरुन्ध्यात् निर्ग्राह्णम् वसत्यावरुन्ध्यात् यस्मिन्नेव तस्माग्ब्राह्मणोपदत्तेन अवरुध्यः एर्ब्राह्मणन्न विन्देन दर्भस्तम्बे होदव्यम् अग्निवानवेदर्भस्तम्भः अग्नेवकम् हुतम् भवते दर्भागस्तुलाध्यासेदर्भाणध्यासेद गामेवाज्ञाबाहुदिञ्जुभूयात् तामध्याधेत तस्माद्दर्भानाध्यासितव्याः विदर्भान्नबिन्दे अप्सहो दव्यम् आगोपे सर्वदा देवताः श्वेवा देवता स्याज्ञहाकम् हुतम् भवति आ वस्तुनपरिरक्षेत यदावपरिजक्षेण दा, यामेव स्वाहुनिम् चोयात् ताम् तस परिरक्षेद तस्मादाव न परिदक्ष्याः मेध्याजमानेतश्च मेध्यायतनमोधम् सृज्ये यस्याहिताम् सृज्यन्ते अग्ने व्रतमग्रे अष्टागवानन्दवेदेवलम्भयते तद्भक्तश्रमन्तमगतमगः अव्यत्वष्टा बृहस्पतिः पृथिव्यामुष्टो ते च नाभिप्राप्नो एवेत्वन्तः वेददेवास्मिन् वाजिनन्दे अग्नित्याः अग्निवेदौधाः एतदेव तद्दधाति इन्द्रित्याह इन्द्रियमेवास्मिन् दधाति तष्टेत्याह तष्टावेव सोनान्यधनागमरोपे पूर्वमेव पशुरसादे पुरस्मयरित्याह ब्रह्म वैदेवानाम् पुरस्पदेः ब्रह्मणैवास्मनेपजास्पजनैदे पृथिव्यामोजश्चोदेचरित्याः अस्यामेवेन प्रतिष्ठा वेदे नाभिप्रात्मजनिर्दिम्बराजे नित्याह रक्षतामहत्यै या पुनस्ताः प्रस्रवन्ते उभयष्टा सर्वदस्त्रियाः ताभिरश्मित्राभिः श्रद्धा यज्ञमानभे देवागानुविदः कार्यज्ञायविन्दया वनस्पतिना देवेन बाधाः यज्ञप्रेजनाम् श्रीयश्रेजवः माभुतः सोमपेक्षाय तन्नयनम् दे। आपो देवे शुभ्रास्तुन्धदा उपाय देवार्गमुदशन्धदाय अभिधेये गायत्रीपर्णवर्गेण नयः सोमम् करोणामि यन्तमारोहनिसोर्यमह्नेः आदित्यषातिरुत्तमम् स्वयदान् देवदासोहम् नृजाना इन्द्रेण सह देवताः राः देवता। पूर्वः परिगृह्णामि स्वायुत निशयाः इमामोचम् पञ्चदशीये प्रविष्टाः तान् देवान् परिगृह्णामि पूर्वः अग्रेहम् यमानिहता पौर्णमाधवम् भविदमे मास्त्यम् अन्तराग्ने तान्तोर्वः परिगृह्णामि स्वाहायमहे ह्यः प्रजाविश्वरोपारमन्ताम् आज्ञेन्द्रहवयदानाः ताः पोर्वः परिगृह्णामि स्वायमेषया विश्वरोपारमन्ताम् अग्ने ग्रहपतिमभिषम् वदानाः तान् गोर्वः परिगृह्णामि स्वायमैयाः अयम् पितनामग्नेः अवाहाभ्यः कम्भोर्वः परिगृह्णामि अभिषन्नात्मितम् करदे अजस्कन्तांसभापालाः विजयभागुंसविन्धताम् अग्ने चेतायमेदुभ्य अजेत्ये शरदर्शदम् अन्नमावधेयम् अभिरामशरदर्शतम् आपदशे श्रियम् मन्त्रम्बुद्धि यच्छतु इदमहाज्येष्ठेभ्यः असद्भ्यो यज्ञम् प्रब्रवीमे इदमहामिन्द्रज्येष्ठेभ्यः रुद्रेभ्य यज्ञम् प्रब्रवीमे इदमहम् वरुणज्येष्ठेभ्यः आदिष्टेभ्यो अग्ने व्रदमद व्रदञ्जरिष्यामि रक्षके यन्तन्मेलाभ्यनित्यम् व्रतमदञ्जरिष्यामि रक्षके यन्तन्मेराध्यम् इमाम् प्राके विषमोर्जमभिषज्ञस्कृताम् बहुपन्नामचुष्काग्राम् हरामिषमामहाम् यत्कृष्णो लोकम् दर्ता प्रापि सम् वनस्पतेन तेन तस्त्वामेकविंशरामिषतम्भृता यज्ञायुणसञ्चलानम् क्षणम् सम्भरामिषतम्भृताः या जाता वोढदयः एवेभ्यत्रेभ्यासम् परिस्थलमाहरन्वेयज्ञेयम् शिवमस्तुमे च्छायुनाभवन्तोदाच्छिन्नम् पर्योदो शवनम्भ्यस्ताभहाम्यहम्ैः सह यज्ञे पवित्रम् पौतमम् अयोहव्यम् करोतमेज्ञस्याङ्गानि सर्वशः आप्यायन्तौ सञ्चरताम् पवित्रेऽहं यशोधने पवित्रे स्वा वैष्णवे पायुवाम् मनसा पुनादौ अयम् प्राणश्च बाणश्च यजमानपि गच्छताम् यज्ञे च भूताम् पवित्रेऽहव्य त्वया यज्ञो जाहिदेशदानेत्र विद्वान् त्वया होतासन्तनाद्यमासान्तुनाम् पवित्रेण सदागः सुवेजगम् अग्निनामुपदेवदा अप्रसुदा यज्ञस्य सन्नेतम् विभताम् इन्द्राय च दन्दे उपवेशोदयज्ञाय ताम् परिवेशपसारयन् इन्द्राय हविक्रन्वन्तः श्वः शब्मोपवादनः अवन्वयन्देव पात्रम् यज्ञस्यायुषप्रयुज्यता इहपवित्रपतिनेताः आपोधारयवादिवः समित्राः सूर्यभिः पवित्रेरज्यम् सर्वापात्राणि संसदा एता आदरन्त्यसमधुहानाः यशविश्वपाः बह्वेर्भवन् देपजायमानाः इहमयेन्द्रारमयजुगावः ऊषास्था मयक्ष्मावप्रजयाथमन्धरामे आयस्तोषेण बहुला भवन्ते भो जम्बयः पिण्डमाणाघृतम् च देवो देवम् देपवत्सदेयम् यौष्टयमञ्जज्ञम् पृथगे सन् दुहाताम् धाता सोमेण सहवादेन वायुः यजमानायज्ञधातु उत्सन्धुहन्ति कलशन्तदर्जनम् देवे मृतोदेकम् सुपर्वितम् तदिन्द्राज्ञेयम्बगम् समुदतापदे तद्यजमानम् मृतप्रेदधातु कामसूक्ष्मप्रणाः ब्रूहे इन्द्राय हवेञ्जनम् यस्याम् देवानाः मनुष्याणाम् पयोधिरम् बहुवृद्धीन्द्राय देवेभ्यः पुनः वत्सेभ्य मनुष्येभ्यः पुनर्दोहाय कल्पदाम् यज्ञस्य सन्ततिरधि यज्ञस्य त्वा सन्ततिर्मसन्तमामे अदस्तमधिविष्णवे त्वा यज्ञायापि तथाम्यहम् अद्भिरिक्तेन पात्रेण याः पोताः परिशेलते अयम् वयः स्वामम् कृत्वा स्वाम्योणिमभिगच्छत् कर्मवल्कः पवित्रम् सौम्यः सोमाभिनिर्मितः गो वर्णम् च दम् च देवानागुम्हव्यगोपाय विष्णोहव्यगुम्भिरक्षति उपाभग्णते दे। देवता उपवसन्तु मे अहङ्ग्राम्यामुपसामिकोपदये पशूने देवादेवेमराहक्रमध्वम् अथवा द्वितीयेषु तृतीया तृतीयेषु त्रिरेकादशा इदमापदा इदुम् करोमि आत्माकरोत्मनेः निरङ्करिष्ये भेषजम् इदम् मे विश्वभेषापद इवम् इदमहगुन्धनाय भे त्वर्विभाहि महरेन्द्रियाय आप्यायता धृतयोनिः अग्निहव्यानमन्यताम् क्षमम् क्षप्रजमङ्वा श्रोकम् दाय सुमिदम् शोणान्तेजसा अग्नयनुष्ठमभिकारयामि शोणम् ते सदनम् करोमि कल्पयामि तस्मिन् सेदा प्रतिष्ठा हेनाम्नस्य मानः आदर्पदर्भुवनस्य गोपाः सुत उत्सारितनितामतेनाम् स्तः प्रविष्टः देवानाम् ना मिष्टामनिरस्थ आत्मन् स्वमघलभाणिः भूत्वा देवाम् गच्छ सुवर्मिन्द्यम्भोदिप्रसङ्गेर्मेर् दे देवात् देवा। यस्याः दे। पिनदमन्तरे मे संमयिकर्ग्यस्पन्दत्तम् ्रान्तम्पद्रष्टा आयुर्वश्रोता आदित्योता प्रजापतिबन्धः शिषम् भरतमुयमरुषिम् च अपदानानि च प्रत्यपदास्यामि नमस्ते यदोदानानि देवन् आज्यप्रत्ययज्ञेन दे तदाज्ञा इदाम् पुनः प्रद्यायायमहात्रा व्याधाकृत्यतामिदम् मारोनुवाम यज्ञस्य शुद्धकर्तितमिदगमोहभिः मरुणादृष्टाम् कृतवती मित्रावर्णसमे दक्षिणार्धान् अवत्याम् तस्यात्रैव गणाः मे माक्षाये कल्पन्ताम् कल्पन्ताम् मे दिशः नैवेयश्च मानुषेश्चे गल्पेदाम् कल्पन्ताम् माता मे कल्पन्ताम् प्रतमो मे कल्पन्ताम् संवत्सरो मे कल्पदाम् कृत्रिरजकल्पदाम् मे आशानान्दाेभ्यः यतद्भ्यो अमृतयेभ्यः इदम् भोजस्याध्यक्षेभ्यः गम् भजामः तस्मिन् वा ओन् वादवा निर्भक्तो ब्राह्मणः ब्राह्मणस्यास्ते समन्ताम् बलेरविडागतेन समादितेः विश्वेभिर्देवेऽभिरन्ताम् निर्वन्न वा गच्छते स्वाहाणी वा वितबा भूयातम् अतिशिरवसुपुत्रा अस्थोरित्राकारिभवत्या उपनिषे सुप्रजास्ताय जा। सम्भत् नैवत्या सुभृतेन गच्छताम् यज्ञस्य युक्तो धैर्याभूताम् सन्ध्याना विजहरामरादेः निज्योतिरजनमारभेदाम् दशरे तनवो यज्ञयज्ञ्याः इतन्� ताः नारिष्टयोः प्रचिदमीडमानः देवानाम् देवाकल्पयन्सदकृतो एतद्भवान् तेन प्रीनानि एतदृप्य नेवानागुं सुकृतामस्मि लोकेष्टम् नवाने अहम् नारिष्ठामुलीजामि विद्वान् विराभ्यामिन्द्रोधायम् म् प्राणायसदासरेणवासाय स्वाहाभगासेवायमाना य सुने परिधयम् सुवर्णाः निष्कायिमे यजमानस्य बध्ने परिस्तु परिसत्ताज्ञे परिवाज्ञोषेनागम् सुवर्णः निष्का इमेजमानस्य सन्तुका मधुधाराः अमुत्राविष्णुम् लोके भोपदे भवनपदे महतो भूतस्य पदे ब्रह्मानन्तावृणेमहे अहम् भोपतिराम् भुवनपदे अहम् महतो भूतस्य पदेज्यम् करिष्यामि हेम च वितरे तन्तावृणते पुरःपचिन्देऽप्यम् ब्रह्माणम् मनसे ब्रवीमि मनोगायत्र्ये गायते सृष्टुभे दृष्टुजगत्य जगत्य दृष्टुभे अनृष्टुः पङ्क्ते पङ्कः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यः विश्वे देव बृहस्पदये बृहपदर्ब्रह्मणे ब्रह्म भवद्भवः सुवः बृहपतिर्देवानाम् ब्रह्मा अहम् अनुष्यानाम् बृहस्पते यज्ञङ्गोपाय इदम् तस्मै हर्म्यम् योगो देवास्तरब्रह्मजर्यम्पस्ते अन्तर्दौतश्चतुश्चण्डायनस्य मध्ये दौभगाय वह्यम् सुक्ष्मजमानानि भोक्त्वानम् बुष ततो देवे मध्ये देवया गुङ्घे यज्ञिया यज्ञम् विजयम् निशम् च पोदपेरा परिहर्तक्रेष्टः दमहावता मनसा इष्टवाचा यो ब्रह्मना कर्मणा व्यक्तिदेवा यस्तुदेन हृदयेष्टनागास्ये नवज्रनगिरक्षत्मने ओर्णां पद्मानगस्योणम देवेद्यो यक्तकुन्दनारवये स्वते लोके देवा नभमिथे महानागस्तु वृष्टे वरमेव्यमन्ये रुसगन्दाय वदसुभेदाः स्ते सौभगाय शिवाजमे श्रवणाजमेजैमोऽर्जम् मे बिन्वस्व ब्रह्मदेजो मे बिन्वस्व क्षत्रमोजो मे बिन्वस्व इषम् पुष्टिम् मे बिन्वस्व आयुरन्नाद्यम् मे बिन्वस्व रयाम् पिशोन्मे विन्मस्व अस्मिन् यज्ञौ बहु यन्मे अविक्षाभायवर्धेन्द्रथामि धर्ताधरुणोधरीयान् अज्ञद्वैनागम् जनिदादे विच्छिन्नविसदेभ्यागम् सपत्नान् जातान्भ्यामानाः विशोयन्त्राभ्याम् विधमान्य भार्गस्वानामुत्तमो धानि देवाः शिशोयन्त्रेण विदमाने अदानिम् विश्वम्बरात्मानिन्द्रह्मरायम् सीदन्ते देवेषु कृतस्य लोके धृते स्पृते प्राणान्वयि धारेणीधारेणीधारेण अयम्रत्र उभयस्य धर्ताः धर्ता प्रयाजानामुतानो याजानाः स्वरूपाःयामि आरोहपथे वयाणान् यत्र हिरण्यपक्षा विलासम्भृताङ्गा महाजमा यत्र लोकाः अवाहम्बादृता सुपत्रान्धातुमानाः लोहै यज्ञकम् सुदुघा विबेनुम् अहमुत्तरा भूयासम् अथ एमत्सपत्नाः व्योमा वाचामरजाय ्याम्प्राप्ते पृथिव्यामन्तरिक्षे अहमुत्तरा भूयासम् असरे मत्सपत्नाः यज्ञस्थाने जिरश्च पूर्णा अत्यन्नमयाज्ञानिधर्मदश्रितःपदेः सर्वदाम् भवदम् भविष्यच्छ्रयताम् मेषन्ताजुः सहस्रम् मेषन्तसोमृताः विलापदे पशुपदेः इदमिन् अनेन यत्पृथिवेरर्थप्रविष्टम् येनादिबलमिन्द्रे प्रजापते इदम् तत् शुक्रम् मधुभागिने मदे येनष्टार्थेन्द्रम् प्रथिमान् अयम् वेदेवन्दविन्दज गुहा समिन्द यजमानाय लोकम् अच्छद्रै यज्ञम् भोरिकम् आकरोत् अयज्ञस्तमब्धविष्मारन् विधाताम् नायुताभिन् सूर्यवतोदरेण इन्द्रस्तप्यान् लक्ष्मी एकामयादे अस्मिन् यज्ञे यजमानायम् अहम् प्रजाम् देहपते अर्ने वाज वाजन्तालक्ष्यन्तम् वाजन्धे वाजिनम् वादितम् अर्ग्यमन्नादमन्नाद्यायताज्ञोताग्ण्याय बहोदा पृथिवे माता पृथिवे अग्निर्कराज्यम् विच्छिन्न यज्ञा विश्वे देवायवादयन्ताम् यन्ते अज्ञा पृच्छामि अहम्वाहाक्षिमितश्चरन् प्रजान्तरस्रमूलम् च नीतेश्च अग्नेयोसते समानो यश्च नित्यः युद्धस्येव प्रक्षालितः पादस्योच्छे किञ्चन यो वाे याजवेदः किञ्चाहङ्गे स्मिष्टवान् सर्वाकृष्टान् सन्तः यागश्चाहङ्गे स्मिगेतवान् अग्ने वाजय राजन्त्वागुंसम् राजन्ति शिवागुंसम् राजनम् वाजितम् वायिनित्याये संवाहाज्ञे अभिनिमन्नात्मन्नाद्याय एतम्भवे यद्भक्परिषयश्रुतः आज्ञै यज्ञाज्ञाश्च पुषत्काराः संवयसन्नतयोनुमन्ता यद्भन्नहनेभृते विवक्षेलोपदतः पृथिव्याध्युत्थितः दा। तेन दहसण्डेन विषन्तगुरुशोजयामुखे ोहंसम् यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञा शिवेन मे सन्तिष्ठस्व शोणेन मे सन्धिष्ठस्व भूतेन मे सन्तिष्ठस्व ब्रह्मवर्ततेन मेधन् दृष्ठस्व यज्ञस्य हदातुः मुसलेर्पे आकपाले अपपृषो विप्रभः संयुधामि विश्वे देवारदम् पिबन्ता यज्ञेया विप्रयः सन्ति वक्मेः अर्णौ सर्वाः स्विष्टाः सुहृदाजोमिन्नमित्रमः समत्रा सह विलीनादि विद्युदाजिः निम्रोचन्नसराजे उद्वन्नत्य दीर्घायत्तस्य हेषुषे कस्य नो देशौर्य उद्यमित्रमः आरोहनुत्तरान्तिमम् हृद्रोगम् मम सूर्य हरिमानम् च नादय सुकेषु मे हरिमानम् रोपणाकाशुरध्वजे रत्रिवेषु मे हरिमानम् विरध्वजे पुरगालयमादित्यः विश्वेणश्रपादशपदः कश्चन शपदश्रपानृम् समोहनाः विद्मस्तेव प्रक्षायतः मादस्योच्छेदकिञ्चन अवदष्टः पलापद्रह्मनिषदः रक्षामित्रान् त्वविष वैषान्तञ्चनोक्षितः सक्षेदम् पश्य निषत्तरिदम् पश्य नाखेदम् पश्य न्याहुः सौर्गोष्ठे अनुद्यावाक्रे देक्षाधिोनिः रमोधिर्ब्रह्मणवयोनिः ब्रह्मादिक्षत्रस्य योनिः क्षत्रमस्तस्य योनिः श्रद्धाम् मनसा दीक्षान्तपसः विश्वस्य भुवनस्याधिपद्ये सर्वे कामायमानस्य सन्तोपाः समावृत्यास्त्रायधाम्बः इन्दुधानयत्रे प्रमद्य इन्दुधानत्वम् प्रपद्ये कान्ते इन्द्रदान्ते विलज्मे इन्दुसाक्वलविष्णुभम् प्रवध्यन्ते इन्दुसाक्वरपन्दिम् प्रवद्ये तान्ते विलज्मे आहन्ते ब्रह्मणा चेधायि सत्यमतेधायि मे सत्यम् च भूताम् सुवर्गमम् सुवर्गम् लोकन्नागस्य पृष्ठम् ष्टमगमम् अजागप्रेक्षयापेक्षितः रया जेक्षया देक्षितः रयाकापेक्षया देक्षयामि अन्धविक्षन्धेक्षयावायुर्भेक्षयापेक्षितः रयावायुर्भेक्षया देक्षितः रयाकापेक्षया वेक्षयामि यावर्धेक्षा रया लिख्यापेक्षया जेक्षितः रया लिप्त्यापेक्षया लेक्षितः रयाः ता देक्षया देक्षयामिक्षया देक्षितः दया चन्द्रमादीक्षया लेक्षितः रयाः ता देक्षया रेक्षयामि आपोदेक्षा तया वर्णो राजादेक्षया देक्षितः रया वर्णो राजाधेक्षया देक्षितः रयाः ता देक्षया देक्षयामि ओषधयो देक्षा तया सोम राजा देक्षया देक्षितः क्षयामिदीक्षया देक्षितः रया प्राणोदक्षया देक्षितः यया त्वा देक्षया देक्षयामि गुरे त्वारेक्षमाणमरेक्षन्तरिक्षम् पादेक्षमाणमजेक्षरा यौ स्वादेक्षमाण अनुजेक्षरा विशस्तारेक्षमाणमरेक्षन्तास्त्वारेक्षमाणमरेक्षन्तारेक्षमाणमरेक्षन्तारेक्षमाणमरेक्षता विकस्तारेक्षमाणमरेक्षन्ता सामानिक्षमाणमरेक्षन्ता विकरपुंशत्त्वारेक्षमाणमरेक्षन्ताश्च ष्ट आपश्चौषधयश्च ऊर्च्यसौन्द्रतास्त्वा देहसीदम् विदस्वयमेधि सो न महाभिषेवः शिवो वा शिवमामिष सत्यम् महात्मा श्रद्धा मेक्षितेः तवो मे प्रतिष्ठा सत्यमस्मे अहम् अद्युत्तरस्मिन् विश्वेष्णस्तान् वेद ेवोद्यस्त्वान् वेदौ त्रीणम् प्रदाय कृष्टस्तान् वेद चत्वारि मायो भवाय पृष्टस्त्वान् वेदो पञ्चपशुभ्यो विष्टस्तान् वेदो षट् प्रायस्तोषाय पृष्टस्तान् वेदो सप्तसप्तभ्यो होत्राभ्यो विष्टस्तान् वेदो सखायन् सख्यात्ये तस्याः ते पृथिवेपादः सा दुरुर्ब्रह्मण्ये अस्याः तेनन्तरिक्षम् पादः सा दुरुब्रह्मण्ये तस्याः ते द्यौःपादः सा दुरुब्रह्मण्ये तस्यास् तेलःपादः पञ्चमःपादः सा लमोदम् धृक्ष्वा तैलेन्द्रियम् अन्नाद्यम् ्याः यथा देवस्वः समे त्रिदस्य खण्डानुपतिः सुमेप्रेया गुणश्च मध्ये तस्याम् दे शुक्रम्पर्य अग्ने वेष्मानस्वाः यस्मानाभयम् कृतेभ्यः सर्वाभ्योमड नमो रुद्रालमेषु यस्माद्भेषान्यो नाभयम् कृतेभ्यः सर्वाभ्योमड नमो रुद्राजमेषुडेश्वः मे मयि यज्ञैजमानन्तरेण स्ववर्गे लोगेविधेः ुष्ठाः ततो नमो रुद्रागमे तस्मै नमः तस्मै स्वाहा न वाुवेतम् म्रियते आसानान् विश्वासा यज्ञो इन्द्रा हुता हुदस्य दर्प्यम् अहुदस्य हुदस्य च हुरस्य च अहुदस्य च अहुदस्य हुदस्य च इन्द्राग्ने अस्य होमस्य वेदम् विपदम् ज्येष्ठमा विदत्